ो समुद्रादूर्मिर्मधो माम् उदां सुमृतत्वमाहानके घृतस्य नाम गुह्यम् यदस्ति जिह्वादेवानामृतस्य नाभिः वदन्नाम प्रब्रवाम घृतस्यास्मिन् मानमोभिः उभब्रह्मादेन वच्छस्य मानम् चतुः शृङ्गमे गौरयेतत् तत्त्वादिशृङ्गात्रयो अस्य पाधा द्वे शीर्षे सप्तमस्तासो अस्य त्रिधा बद्धो वृषभोरो रवीतिमहो देवो मद्याङ्गावीवेध हितम् पणिभिर्गुह्यमानम् गमिदेवासो घृतमन्वीन्द्रन् इन्द्रजेकम् सूर्यकम् जानवेकम् स्वधजा निष्टचक्षुः एतार्षन्ति हृद्यात् समुद्राच्छतव्रानावचक्षे घृतस्य धारा भिता केभिहिरण्ययो वेदसो मध्य आसाम् सम्यक् स्रवन्ति सरितो न धेनान्तर्हृदा मनः स पूजमाना एन्त्यो मयो घृतस्य मृगारीवक्षिपणोरिषमाणा सिन्धोरिवप्राध्वनिसु घनासोपातप्रमेयः पतयन्ति जह्वा घृतस्य धारा ऋ काष्ठाभिन्दोर्मिभिः भिन्मयमाना अभिप्रामन्दसमाने वयोः कल्याण्या अस्मयामानासो अग्निम् ऋतस्य धारा समिधो न सन्तताणो हर्यति जातवेला धन्यायिबवह मे तवावो अञ्जम् जारा अभि चाकसीमि यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभिधत्त्ववन्ते अभ्यर्गतसुष्टुतिम् गव्यमादिमस्मासु भद्राद्रवीणानि धत्त इमम् यज्ञम् न यगदेवता धारा मधूमत्ववन्ते धावश्वम्भुवनमधिः श्रुतवन्तः समुद्रे हृद्या अन्तरायुषि अवामनी केशमिथेजाभृतस्तमस्य मम धूमन्त ऊर्मिम् विश्वेश्वराय नमः ग्निः समिधानाम् प्रतिधेनुमी वायतिमुषासम् जह्वायीवात्रभजामुज्जिह्वानाप्रभानवशिश्रतेन कमच्छ अभोधिगोता यजधाय देवानूर्ध्वो अग्निः सुमना प्रातरस्तात् समिद्धस्य रुजदशिवायो महान् देवस्तमसो निरामोचि यदीम् गणस्य रसनामजीकस्सुचिरम् ते शुचिभिर्गोभिरग्निः आदक्षिणायुज्य देवा जयन्त्युत्तानाम् मूर्ध्वो अजयद्विगोभिः अग्निमच्छादेवयताम्नाम् श्रीचक्षूम् श्रीमसूर्ये सञ्चारन्ति यदीम् सुपादे वुषसा विरूपे श्वेतो बाजी गायते अग्रे अह्नाम् जनिष्टै अग्रे हितो अह्नाम् यतोहितेष्वृशो वनेषु गमे सप्तरत्रादधा नोग्निर्होता अग्निर्होधान्यसीलज्जीजानुपस्थे मातुः सूरभावो लोके युवा कविः पूर्वनिष्ठृता वा धर्ता कृष्टीनामुतमध्ययुद्धा प्राणम् विप्रमध्वरे साधुमाग्निमोभिः आयस्तदा नरोदयसीलतेन नित्यम् ृजते श्वेतमूनात् कविप्रशस्तो अतिथि शिवोराः सहस्रङ्गो वृषभस्ततो जा विश्वाङ्गग्ने सहसाप्यास्यन्याय प्रसद्यो अग्ने अत्येषाभिर्यस्मै चारुतमोऽबभूथे पुष्या विभावा प्रियोमदी धर्मानुषीणाम् तुभ्यम् परम् दीक्षितयोगणमे अतिरोधूरात् आबन्दिस्य सुमति चेद्धि बृहत्ते अग्ने महि शर्म भद्राम् आद्यरथम् भानुमो भानुमन्तमग्ने तिष्ठ जः सन्तम् विद्वान् पधीनामुर्वा अन्तरिक्षमेह देवान्हविरद्यायवक्षि अवोचापकमजेमेऽध्यायवचो वन्दारूवृषभाय वृष्णे गिष्ठिरो नमसास्तो मम मग्नौ दिवीवर्ममुद्यम् चामश्रेत् कुमारम् माताजूपतिः समुद्धम् गुहा बिभर्ति न दधातिपित्रे अनीकमस्य न मिनज्जना तत् पुरः पश्यन्ति निहेतमरवौ कमेतम् तञ्जूपते कुमारम् पेषी बिभर्षि महिषी च जाना ऊर्विजगरभः सररो भवर्धापश्यञ्जातम् यतसूतमाता हिरण्यदन्तम् सुजीवन्न माक्षेत्रा तपस्य मायुधानिमानम् अस्मा अमृतम् किम् मामनिन्द्रा क्रीडवन्ननुक्ता क्षेत्रा तपस्यम् स नुतश्चरम् तम् सुमद्योधन्न पुरुषोभमानम् भ्यन्न जाने तैल त्वलिग्नी विद्युगतयोः भवन्ति हेमे वर्यकम् विजवन्त गोभ्यन्न येषाम् गोपानश्चिदास ईम् च गृहवते सृजन्त्वाजादिपस्वगुपानश्चिखित्वानि वसाम् राजानम् वसतिम् जनाः नामरातजोनिरधर्मत्येषु ब्रह्माण्यत्रेरवम् सृजन्तुरोसो भवन्तु सुनश्चिच्छेवम् निदीतम् सहस्राद्यूपादमुञ्चो असमेवास्मदग्नेऽिभू मुग्धिपान्नो कश्चिकित्त इहतो निषद्य नियमानो अपहिमदये प्रमे देवानामृतबावाच इन्द्रो विद्वान् कलुहित्वा च क्षते नाहमग्ने अनुसिष्ठ आगा युज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृते महित्वा रा देवीर्माजा सहसे दुरे वा सिसीते शृङ्गे रक्षसे विनिक्षे उत स्वानासो दिविढम् भग्नेऽस्तिग्मायुधारक्ष सेहन्त बाहु मदे जिलस्य प्ररोचन्ति भा परिबाधो अदेवीः एदन्ते स्तोमम् तु विजा दभि अदक्षम् यदि लग्ने प्रदित्वम् दे बहर्याः स्वर्वतिरपयेनाजयेम ग्रीग्रीवो वृषभो वा वृधानो सत्त्वा अर्यः समाजातिवेदाः इवमग्निमममृताः अवोचन् परिजष्म ते मन वेशम् माजंसद्धविष्म ते मन वेशम् माजंसत् त्वमग्देवरो नो जायसेयत्त्वम् मित्रो भावसि यत्समिद्धः ते विश्वे सुत्रदेवास्त्वमिन्द्रो दासुषे मर्त्याय त्वमर्यमाभावसि यत्कनीनाम् नाम स्वधाम् गुह्यम् बिभर्षि अञ्जन्ति मित्रम् सुधीतम् न गोभिर्यग्दम्पाती समानसा कृणोषि तपः श्रिये मरुतोः मज्जयन्तरुद्रजत्तेजनीमचारु चित्रम् पतम् यद्विष्णोः रूपमम् निधाजितेन पासि गुह्यम् नाम गोना तपः श्रिया सुदृशो देवदेवाः पुरोदधाना अमृतं सपन्त गोदानमग्निम् मनुषो निषे दुर्दसः सन्तुषिजः न त्वद्भोदा पूर्वो अग्नेयी यान्न काव्यैः परो अस्ति स्वभावः विशश्च यस्य अधिर्भवासित यज्ञेन वनवद्देवमत्तान् वयमग्ने वयम् स मर्यविदधेष्वह्नाम् वयम् राजा सहसस्पुत्रमत्तान् यो नागो अभ्ये नो कित्तो दधातीचीकृतो अविरसि नो भर्चयातिध्वजेन देवपूर्वे दूतङ्कम् पालायतायैः सांस्थैलग्नयीयसेन जीवाम् देवो मध्यैर्वशुभिरुध्यमानः अवस्मृतिवितरम् योधि विद्वान् पुत्रो यस्ते सहस्रो न कदाचिकृतो अभिलक्षसेनोग्ने कृतासे भूरिणा मन्दमानो ददातिपिता वासो यदि गोषयासे कुमे देवस्य सहसाचारः सु न अग्निर्वालते वा वृधानः त्वमङ्गचारितारम् यमिष्ठविश्वान्यज्ञे दुरितादिवर्षि ृषिना भूवन् इमेद्रिक भूमन्वसा मे पातदिताको अवाचिरभिषस्तजे दोलनीषा देवावृधानः परादात् स्वामग्देवसूपम्बसूनामभिन्ते अध्वरेषु राजन् जम् वाजयम् को जय माभिष्यामपृत्सुतीर्मर्तानाम् पिता नो विभुर्विभावा सुदृशीको अस्मे सुगार्गमत्याश्रमिरो दिदेह्यस्मध्या शाङ्गविम् विश्वदिम् मानूषीणाम् सुचिम् पावकम् कृतपृष्ठभग्निम् गोदारम् विश्वमिधम् दधिध्येष देवेषु वनदेवा याहि जुषस्वाग्लाया सजोषाय तमानो रश्मिभिः सूर्यस्य जुषस्व नः स्वमिधम् जातवेदा च देवान विरज्याय ोदमो नार्दलोटजिमन्नो यज्ञमुपजाहि विद्वाणि विश्वा अग्ने अभीजो विहत्या शत्रो जता माभराभोजराणि वधे नद स्व्रहिपातगस्वभजः क्रन्वानस्तन्वे हे स्वादै पिदर्षिजत्सहसुपुत्रदेवान् स्व अग्ने पाहि नृतमवाजे अस्यान् भयम् ते अग्नमुक्तैर्वीधेम भयम् भव्यै पावकभद्रशोचे अस्मे रजम् विश्ववारणसमिन् भास्मे विश्वा निद्रवीरा अस्माकमग्ने अध्वरम् जोषस्वधः सूनात्रिणः सहव्यम् वयम् देवेतु सुकृतस्यामसम्मानस्त्रिवरू पाहि विश्वारिलो दुर्गः जादवे तस्मिन् धम् नो दिगादिपर्षि अग्ने त्रिवन्दनो स्माकम् बोध्यपिता तनूनाम् यस्त्वा हृदा कीरिणा मन्यमानो मध्यम् मर्त्यो यो हवीमि जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वस्याम् यस्मै त्वम् सुकृते जातवेदमुलोकमग्ने कृणवस्योनम् अश्विनम् स पुत्रिणम् वीरवम् तम् गोमनम् तम् हृम् नासते स्वस्ति सुशाविध्याय ज्योतिषे हृदनम् दीर्जुहोदन अग्न जातवे दे न सुषूतदेवम् जत्यमदाभ्यः कविर्हि मधुहस्त्यः अग्नामहेन्द्रम् चित्रमिह प्रियम् सुखैरथेऽभिरुदये पूनम् रदाभिप्रातस्वाभ्या अर्कालोषत भवानः सुभ्रसादये देवीर्द्वारोऽभिश्रायध्वम् सुप्रायनाभूतये प्रयज्ञम् प्रेणीतल सुप्रतीके मयो वृथा जीदृतस्य मातरा दोषामुषास मीमहे मातस्य पद्मन्निरितादेव्या होदा रामनुषः इमन्न रा, यज्ञमागतम् यदा सरस्वती मही तिस्रो देवीर्वाजोभुवाः गर्हि सेदन्त्वश्रिधाः शिवस्त्वष्टविभुक्पोतत्मनाः यज्ञे यज्ञे न बुदाभा यत्र वेत्था वनस्पते देवानाम् दुह्यानामानि तत्र हव्याली गामय स्वाहाग्नेवरोनाय स्वाहेन्द्राजमरुद्भ्याः स्वाहा देवेभ्यो हविः अग्नन्तम् मन्ये योगसुरस्तम् जञ्जन्ति धेनवाः अस्तमर्वन्त आतरोस्तन्नित्या सो बाजिनयिषम् स्तोत्रभ्याभर सो अग्निर्जोपसगृहे संय मायन्ति धेनवाः समर्वन्तो रद्रुपस्सं सुजातासः सूरजयिषम् स्तोतृभ्याभर अग्निर्हि बाजिलम् विषे दधाति विश्वचर्षणिः अग्निदाने स्वाभुवास प्रीतो दिवार्जमिषम् स्तोत्रभ्याभर आने अग्निमहि जुमन्तम् देवाचरणम् शब्धस्य देपनीयशी सनिधिरीचयिषम् स्तोतृभ्याभर आने अग्निर्वाहस्य श्रोति बृहस्पते सुष्ठदस्मविश्व देहम् च वार्तुभ्यम् भूयतरिषम् स्तोत्रभ्याभर क्रोच्ये अग्नजोऽग्निषु विश्वम् पुष्यन्तिवार्यम् येहिन् विलेतयिन् विलेतैषण्यम् चानुषगृहम् स्तोत्रभ्याभरपते अग्ने अर्चजो महि व्राधन्तवादिनाः ये पत्वाभिः स्वभानाम् प्रजाभुरम् तको नामिषम् स्तोत्रभ्याभर नभानो ना अग्नाभरस्तोत्रभ्यः सुक्ष्रीषाः ते स्यामय आ नृजुसुत्वादू दासोदरे समयिषम् स्तोत्रभ्याभर स्तो उभे सुन्द्रसर्पिषोदर्वीश्रेणीष आसनि कुतो न पुर्या उच्चेशवसम् स्तोभ्याभर एवाग्निमार्जमीर्भिर्जज्ञे धीरानुषग दध तस्मै सुबीर्य पुरत्यदा स्वस्य स्तोतृभ्याभर सखाय संवत् सम्यम् च मिषाम् स्तोमम् चादरे परिशिष्ठायक्षिते नामोर्जो नप्त्रे सरस्वते कुत्राचिद्यस्य समेतौ रण्वानरो निषदाने अर्हन्तश्चिद्यमन्तनयन्ति यन्तः संयधिशो वनामहे सम्भाव्या मानुषाणाम् उतद्युम्नस्य समस ऋतस्य रश्मिमाददे तस्मा ऋणो विकेतुमानक्तञ्चिद्दूरासते अवरोयद्वनस्पतीम् तस्मा विना त्यजराः अपस्मजस्य वेषामेतम् पथिषु जुह्वति अभीमहस्वजेण्यम् भूमा पृष्ठेव रुरुः जयम् मध्यः पुरस्पृहम् विजद्विश्वस्य धाजासे स्तदाीदम् दादानरा स्म श्वशुचेतन् रघुरणी भ्रष्टतमिषिः सुजुष्म यस्मात्रमाता प्राणायता दशे भगम् आयस्तेरपि राजसे वैषद्युम् न कृतस्रवा चित्तम् मध्येषु धाः इती जन्मन्यु मद्रिजस्वादा तमापसुन्ददे आदग्ने अपृणतो त्रिश्वासह्यास्तस्यो णिषश्वासह्यान्रेण ूतये सहसृत पुनश्चिम् पूर्जम् विशो गृहराजे धनस्पृतम् विसोः बीजम् रत्रधातवम् सुहासन्तम् सुभगविश्वदर्श विश्वासम् सुयजम् गतश्रियम् समिधानोऽ देवो मत्तस्य यशसा सुधीतिभिः स्वमग्ने पुरपो विषेवि सेवयो दधासि प्रत्मथा पुरुषु े समिधानम् च विष्टदेवादूतम् चक्विरेहव्यवाहनम् पुरुद्य सङ्घृतयो निमाहूतम् तेषम् चक्षुर्दधिरेचोदयन्मादि े प्रतिभाहूतम् घृतैः स्वम् नायव सुषमिधा समीध्रे समावृधानवोषाधिभिरुक्ष्यो ओभियाम् शिवार्थि माभि तिष्ठसे भद्रन्न अपि वा ओ, ओ हरि ओमग्ने अविष्मन्तो देवम् वक्ता शीलते मन्ये त्वा जादवेदसंसहार्यावक्ष्यानुग अग्निर्भोतादास्वधाक्षयस्य वृत्तपरिषः संयज्ञासस्तरन्तिवाजा यथा न पञ्चनिष्ठारणी धर्तारम्भानुषीणाभितिषामग्निम् स्वध्वरम् उतस्मा पुत्रो रह्वार्याणा गुरु यो दग्धीवनाग्ने पशुन्नयपसे अधस्मयः स्यात् सम्यक् सञ्जन्ति धूमिनाः यदि महत्रयो देव्यो ध्वादयी दे यथा तपाहमग्नभूतिभिर्मित्यस्य च प्रशस्तिभिः द्वेषो युतो न दूरिता दुर्जा मम मत्या अन्नो अग्ने अभीरयो रयुम्सह स्वाभरा क्षेऽभजत्स वोषयध्वजस्य सज उतैधिसुना गृहे अग्नवो जिष्ठवाभरजुम्नमस्मभ्यवध्रिगो नृणो राजा बलीलसारत्सिवाजायपन्थानो अग्ने अद्भुतक्षत्वा दक्षस्य मह्ना े असुर्या अमारोभत्राणामित्रो न यज्ञयाः त्वन्नो अध्ययेषाङ्गजम् पुष्टिम् च वर्धय ये स्तोमे भित्रसूरजो नरो भगान्यानसुः ये अग्नेचन्द्रते किल स्वम्भन्त्यस्व राधसः दुष्मे विस्वष्मिनो न राजिमश्चिद्येषाम् मृगत्सु कीर्तिर्बोधापत्ये अग्ने आचयोभ्राजम् पूयन्ति धृष्णया परिज्ञमानो न विद्युतः स्वानो रथो न नूनो अग्नभूतये समाधनसश्च राचये अस्माका अस्माकासश्च सूरजो विश्वासास्तरीषणिस्तवा नाभरा घोदर्विभ्वासहम् त्रयम् स्तोभ्यस्तवासे चलभुतैधिनो हृधे जनस्य गोपा गोपादनिष्टजाग्रेभिरज्ञस्तु दक्षः पिता जनभ्यासे गृहप्रातीयो बृहदादिविस्मसाद्युमद्विभाजिभरतेभ्यः श्रुतिः यज्ञस्य केतुम् प्रथमम् पुरोहितमग्निरस्तृषधस्ते समीधिरे इन्द्रेण देवैः सर्वथम् स बर्हिशीरन्निहोताय यथाय सुक्रतुः असं नष्टो जागसे मात्रास्तु कर्मन्द्रः कविरुदाष्ठो विवस्वातः हृदेन त्वावर्धयन्नग्न आहुतधूमस्ते एकेतुराभवद्दिविश्रितः अनभिर्नो यज्ञमुपवेतुसाधुजाग्निम् नरो विभारन्ते गृहे गृहे आदिर्दूतोऽभवद्धव्यवाहलोग्निम् प्रेणाना व्रीणते कविक्रतुम् झेदमग्ने मधूमत्तमम् वदस्तुभ्यम् अनीरायवस्तु संहृते त्वाञ् निरसिन्धो विवापनीर्महीरा प्रीणन्ति सपसा वर्धयन्ति च ङ्गिरसोगाहितमन्वृन्दान्त्यश्रियानम् वले वले स जायसे मध्यमानः सो महत्त्वा सुत्रमङ्गिरः प्राग्नये बृहते यज्ञियाय ऋतस्य कृष्णे असूराय मन्म स्ये येषु गोतम् गिरम् भरेतस्य धारा अनो गृन्धिपूर्वीः नाहम् जातुम् सहसा नद्वयेन ऋतम् स वाञषस्य ृतयम् कृते नभो नवेदाबुचतश्च नव्याः येन मे देवलुपालूनाम् नाहम् पुलिम् स विदुरस्य राजः केन अग्ने ऋपवे बन्धनासक्ते पायवः सनिषन्तद्युमन्ताः केधासिमग्ने अग्रतस्य पाञ्चिका सोपदसन्ति गोपाः सखायस्ते विषूना अग्नयेते शिवा सहस्रम् तो असीवा अभूवन् अधोर्षदः स्वयमे देवजो अभिर्वृजूयते वृजिलानि ब्रुवन्ताः यस्ते ए अग्ने नमसा यज्ञमीट्टृतम् सपात्यरुडस्य विष्णाः तस्य क्षयस्त्रिसुरा साधुरे एतप्रसर्णस्य नूनस्य जेषाः अर्चम् तस्वाहवामहेर्चम् तत्समी धीमहि अग्ने अर्चम् दभूतये अग्ने स्तोमम् वनामहे सिद्धमद्यति विस्पृशाः देवस्य द्रविनस्य वाह अग्निर्जुषदनो गिरो ताजो मानुषेष्वा स यक्षत्री व्यञ्जनम् त्वामग्ने सप्रभा असिष्टोः दामरेण्यः त्वया यज्ञम् विषम्बते त्वामग्ने वा यम् विप्रावर्धन्ति सुष्ठु तम् स नो राश्वसुवीर्यम् अनग्नेमिररान्त्वमम् परिभूरसि आराधश्चित्र विञ्जसे ग्निं स्तोमेन बोधय समिधानो अमर्त्यम् भव्या देवेषु नोदधत् तमध्वरेष्वीलते देवम् मत्ता अमर्त्यम् दे ऐष्ठम् मानुषे जने तम् इदस्वम् तैलते दे सुता देवम् गृहस्युता अग्निम् भव्या च बोधवे जातो अग्निर्जातो आरोचदग्नन्दस्यो ज्योतिषातमाः अविजम् दर्गावस्वाः अग्निवीरेण्यम् कविम् घृतपृष्ठम् सपर्यत मेदो मे शृणबद्धवम् अग्निम् घृतेन बापधस्तो मेभिर्विश्रुषणि स्वाधीभिर्वचस्विभिः कवजे वेद्या जैरणम् भरे यसे पूज्याय घृतप्रशब्दो दूरस्तुसेवो राजो धत्ता धरुणो वस्वो अग्निः कृतेन ऋतम् धरुणम् धारयन्त यज्ञस्य स केव्यो वन् धर्मेस्तन्वस्तन्वदे वयो महद्दुष्करम् पूर्जायजातसु क्रुधमभितः परिष्टु मा देवे धरसेवप्रधानो जनम् जनन्दाजसे चक्षसे च स्वान्त्रोगम् देवराजः नो राजे चिरयन्नत्रिमस्वजो हि भारवे देवारा या नेत्रा न प्रहत्ते धर्मक्तासौ धीरे पुरः स हिज्युभर्जनाम् गोदारक्षस्य बाहोजमग्निरा नृषग्भगोनवारा अस्य स्तोमे भगवनः सख्ये वृद्धसो दिरः यस्मिन् तु विश्वनिषमजे ्यग्नयेषाम् सुबीर्यस्य मह्ना तमिद्यसी परिश्रवो बभूवधुः नूनये हिवार्यमग्ने गृणान आभरा। ये भयम् ये च हे स्वस्तिधामहे स चोदैः कृत्सुनो वृधे आयज्ञैर्देवमत्र युत्थाव्याम् समूतये अग्निम् कृते स्वध्वरे पूरुलीलीतावासे अस्य हि स्वय सस्तन आशाविधर्मन्मन्यसे अन्नाकम् चिद्वसोऽजिषम् मन्द्रम् परोमेषया अस्य वासाभु अजुषाय आयुक्तगिरा योनयश्च वेतसा बृहच्छोचनम् चर्चयाः अस्य क्रद्भाविचेततो दस्मस्य वसुरजा अथा विश्वासुभव्योऽग्निर्भिक्षु प्रशस्यते नूनैद्य सन्तसूरजाः ऊर्जो न पादभिष्टये पाहि सद्भिः स्वस्तयुरैः भृत्सुनो वृधे अमत्यो हव्यामत्येषु गण्यजि द्विदायवारसे स्वस्य लक्षस्य ब्रह्मा इन्दुम् स धृक्स्तो दादित्ये अमद्य तम्बो दीर्घायुः सोऽषम् गिराहुवे मघोराम् अरिष्टोषाम् लतोऽस्वण नीयते चित्रामाले ऋतिधीनिलासन् मुग्धान्त्रिये स्तीर्णम् बर्हि स्वर्णरेश्रवाम् श्रीदधिरे परि हेमे पञ्चाश्रमम् ददुरश्वाणाम् सधस्तूति युमदग्ने महि श्रवो बृहत्क्रीधिमघोनाम् अभ्यवस्ताः प्रजायन्ते प्रव्रेर्ववृश्चिकेत उपस्थे मातुर्विचष्टे जुगुरे विचितजन्तो निमिषम् भ्रह्मणम् पान्ति आदृढाम् पुरम् विविशुः आश्वयत्रेयस्य जन्तवोद्युमद्वर्धन्तघृष्टया निष्कग्रीवो बृहदुग्धजे नामध्वरवार्यो लयम् दुग्धम् न काम्यमदामिदाम्योऽस च धर्मो न वाचरोलब्धः स स्वतोः क्रीडन्नो न स्मः भूवः सम्भस्म नावायुना श्च न दिग्माश्रुशंसिता वक्ष्यो वक्षणेष्ठा यमग्ने वाचसा तमत्वम् चिन्मन्यासे नयम् तन्ना गीर्भ्यस्रवाय्यम् देवत्रापनजालिकम् ये अग्नेरयन्ति ते वृद्धामुग्रस्य समासः अपद्वेषो अपह्वरोऽन्यव्रतस्य सश्चिरे होतारन्तावृणीमहे णे दक्षस्य साधनम् यज्ञेषु भूर्यम् गिराप्रजः स्वन्तो हवामहे यत्था यथातभूतये सहसामन्दिमे दिवे, दिवे राजृताय सुक्रतो गोभिः श्यामसधमादो वीरैः स्यामसधमादाः मनुष्वत्पादि धीमहि मनुष्वत्समी धीमहि अग्ने मनुष्वङ्गिरो देवान्ते वयते यं इमानुषे जनेऽग्ने सुप्रीत युज्यसे सृतस्वायञ्जाऋक्षुजादसर्बीरासुते <SDA> त्वाम् विश्वे सजोरासो देवासो दूरमक्रता सफलन्तस्त्वा कवे यज्ञेषु देवमीलते देवम् वो देवयज्ञयाग्निमीलितवर्त्याः समिद्धः शुक्रदिजस्य यो निमासदः सदस्य यो निमासदः प्रविष्टसामन्न त्रिवदच्च बापकसो दुषे यो अध्वरे श्रीर्जो होरा मन्द्रतामो विशी ज्ञा अग्निम् जातवेदसम् ददातादेव ऋत्विजम् प्रयज्ञये त्वा नृषगद्या देवव्यतस्तमः न सभूतये परेण्यस्य ते वा स यिजानासो अमन्महि अग्नेति विध्या अस्य राजिगम्बतः सहस्य तन्त्वा श्रुप्रदम्बते स्तोमैर्वर्धम् कत्र योगीर्भिस्वम्भन्त्यद्राजः अग्ने सहम् तमाहारज्जुम्नस्य प्रासहारजम् विश्वायश्च ऋषीरभ्या आशाजे सासहत् अवमग्ने पृतनादहम् त्रयिंसह स्वाभरान् सत्यो अद्भूतो दादावाजस्य गोमासः विश्वे त्वा सजोषः सोजनासो व्यक्तपरिणः ोदाहरम् सद्मसुप्रियम् यन्दिर्याः पुरु स हिष्मा विश्वदर्शणिरभिमादिसहो दधे अग्नये ऋक्षयेष्वारे वह्नः शुक्रदीरिज्युमत्पा भगदीजिः अभ्येत्तम् नो अन्तमबुदत्राता शिवो भावरूच्याः ग्निर्वसुस्रवाच्छा रक्षज्युमत्तमम् रयुन्दाः स नो बोधि श्रुजीहवृषाणो अगागतः समस्मात् अन्वासो तिष्ठति दिवः सुम्नाय नूनमी महे सत्पुत्रविशूनामृता वा परिषदि द्विषः स हि सत्यम् पूर्वे चिद्देवासश्चिद्यमीधिरे होरारम् मन्द्रजिह्वमित्सु धीतिभिर्विभावासु स नो धीतेवरिष्ठया श्रेष्ठया च सुमत्या अगे रायोजीजीहिनः सुवृत्तिभिर्वरेण्य अग्निर्देवेषु राजत्यग्निर्मदेश्वाविशन् अग्निर्नोऽहव्यग्निर्देभिः सपर्यत अग्निस्तुभिश्रावस्तवम् तु वि ब्रह्माणमुत्तमम् अथूक्तम् श्रावयत्वादिम् पुत्रम् ददाति दासुषे अग्निर्ददाति अग्निरत्यम् दृष्यतम् चेतारमपराजिकम् यद्वाहिष्ठान्तः बृहदर्थविभावसो महीषीस्तद्वाजाुदीरते तावुवन्तो अर्थयोग्रावेवोच्यते बृहत् उतो ते तन्यतुर्यथा स्वानो अर्थत्पनादिवः अग्निम् वा सूर्यवः सहसारम् वा बन्दिव स नो विश्वादिद्विषः स्पर्षन् नावेव सुक्रतूः अनदेः पावकरोजिगा मन्द्रयाः देव जिह्वया आदेवान्वक्षिरक्षी चम् वा देवाहीत्रम् पागवे धुवन्तम् समेधीमहि अग्ने बृहन्तमध्वरे अग्ने विश्वेऽभिलागिदेवेभिर्वव्यदातये होतारम्त्वा वृणीमहे यजमानायसु भरे सुवीर्णम् वह देवी रासत्सिबल्भिः श्रीधानसहस्रजिदग् धर्माणि पुष्यसि देवानाम् दूतमुख्याः ज्ञाग्निम् जातवेदसम्भोत्रवाहम् ज्येष्ठ्यम् देवमृत्विजम् प्रयज्ञेता देवव्यतस्तमः श्रीतबल्से एवम् मरुतो अश्विना वित्वस्य दन्तुवरुणः देवासः सर्वया विशा